राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः सन्दिदेश ततः प्रेष्यान्नागाह्वयगतिं प्रति ततस्ते नरशार्दूलाश्चक्रुर्वै ततो राजा महातेजाः सधौम्यः सपरिच्छदः ब्राह्मणैः स्वस्ति वाच्यैव मन्दिराद्बहिः ब्राह्मणेभ्यो धनम् दत्त्वा गत्यर्थं स यथाविधि अन्येभ्यः स तु दत्त्वार्थम् गन्तुमेवोपचक्रमे सर्वलक्षणसम्पन्नम् राजार्हम् सपरिच्छदम् तमारुह्य महाराजो गजेन्द्रम्